श्रीमद्भागवत् महापुराणसप्तमस्कन्धः अथ दशमोऽध्यायः प्रह्लादजीके राज्याभिषेक और त्रिपुरधन की कथा नारदवाच भक्तियोगस्य तत्सर्वम् अन्तराय तं तयार्भकः मन्यबाणो शिशिके संस्मयबाणः उवाचः प्रह्लाद उवाच मां मां प्रलोभयोत्पत्त्यासक्तं कामेषु तैर्वरैः तत्सङ्गभीतो निर्मिण्डो मुमुक्षु स्वामुपाश्रितः भित्यलक्षणजिज्ञासुर्भक्तं कामेषु चोदयत् भवान् संसारबीजेषु हृदयग्रन्थिसुप्रभो नान्यथा तेऽखिलगुरो घटितकरुणात्मनः यस्त आशिष आशास्ते न स भृत्य सवैणिकम् स वैवाम् वणिकम् आशा सा लोलवैभृत्य स्वामिन्याशीष आत्मनः न स्वामीभृत्यतः सं स्वाम्यमिच्छन् जोराति चाशिषः अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाप्नं स्वाम्यनपाश्रयः नान्यथेहावयोरर्थो राजसेवकयोरिव यदि राशि स मे कामान् वरा स्वं वरदर्शभ कामानां हृद्यसंलोहं भवतस्तु वृणेवरम् इन्द्रियाली मनः प्राण आत्मा धर्मोधितिरुमतिः श्री श्री श्री श्रीस्तेज स्मृतिसत्यं यस्य नश्यन्ति जन्मनाम् विमुञ्चति यदा कामान् मानवो मनसि स्थितान, तर्हे वा पुण्डरीकाक्षा भगवत्याय कल्पते नभो भगवते तुभ्यं पुरुषाय महात्मने हर्येऽद्भुतसिंहाय ब्रह्मणे परमात्मरे निशिङ्वाच नैकान्तनो मे मे जात् विहाशिषम् आशासते मुद्रचये भवद्भिधाः अथापि मन्वन्तरमेतदत्र दैते स्वराणां मनुपुंक्ष भोगान् कथामधियाजसुमानप्रियास्त्वम् आवेशमामात्मने सन्तमेकं सर्वे सुभूते स्वरियज्ञमीशं यजस्वयोगेन च कर्मणि हिन्वन् भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा कीर्तिं विशुद्धां सुलोकगीतां विताय मामे सदिमुक्तबन्ध या एतत्कीर्तिन्मह्यं त्वया गीतमिदं नरः त्वां च मां च कर्मबन्धात् प्रमुच्यते प्रह्लाद्वाच वरं वर एतत्ते वरदेशान्महेश्वर यदनिन्दत्पिता मे त्वां विद्वांस्तेज विद्वामर्षाशियः साक्षात् सर्वलोकगुरुं प्रभुं भ्रातृहे तीमृषादिष्टे तद्भक्ते मयि चाघवार तस्मात् पिता मे पूयेत दुरन्ताब्दुस्तरादघात् पूतस्तेपाङ्गसन्धिष्ट तदा कृपणवत्सलः श्रीभगवानुवाच ते सप्तभिः पूतः पितृभिः सह यः साधो गृहे जातो भवान् वै कुलपावनः यत्रि यत्र च मद्भक्ता प्रशान्ता समदर्शिनः साधवः समुदाचारां ते पूयन्त्यपि कीकटाः सर्वात्मनां न हिंसन्ति भूतग्रामे सुञ्चन उच्चाभजेषु दैतेन्द्रमद्भावेन गतस्पृहा भवन्ति पुरुषालोके मद्भक्तात् मां त्वामनुव्रताः भवान्भिः खलु भक्तानां सर्वेषां प्रतिरूपदीं कुरु त्वं प्रीतकार्याणि पितुः पूतस्य मदङ्गस्पर्शनेनाङ्गलोकान्यासति सुभ्रजाः यद्रं चानमातिष्ठ यथोक्तं ब्रह्मवादिभिः नय्या वेश्य मनस्तात् कुरु नारद्वाच प्रह्लादोऽपि तथा चक्रे पिरुरीजसां परायिकं यथाह भगवान् राजन्भिस्तो द्विजोत्तमैः प्रसाद सुमुखं दृष्ट्वा ब्रह्मालरं हरिं हरिं पवित्रा प्राह पवित्राभिप्राहदेवादिभिवृतः ब्रह्मोवाच देवदेवाखिलाध्यक्ष भूतभावन् पूर्वज दिष्टाते निहता निहतः पापो लोकसन्तापनोऽसुरः योऽसौ लब्धवरो मत्तो न बध्यो मम सृष्टिभिः तपो योगः परोन्नद्ध समस्तनिग्मानहत्वं न हन दृष्टास्य तनयः साधुर्महाभागवदूर्भकः त्वयाभिमोचितो मृद्यो दृष्टा एतद्वपुस्ते भगवन्ध्यायितः प्रेतात्मनः सर्वतो गोप्त्री सन्त्रासान् मृत्योरपि जिगांसतः निषङ् उवाच मैवं वरोऽसुराणां ते प्रतीयपद्मसम्भव वरक्रूरनिसर्गाणाम् अह्नि अहि नाम मृतं यथा नारदुवाच इत्युक्त्वा भगवान् राजत्तत्रैवान्तरतदेहरिः अदिश्य सर्वभूतानां पूजितपरमेशिना ततः सम्पूज्य शिरसा वन्दे परमेशिनं भवं प्रजापतिं देवान् प्रह्लादो भगवत्कलाः ततः काव्यादपि सार्धं मुनिभिः कमलासनः दैत्यानां दानवानां च प्रह्लादम् अकरोत्पतिं प्रतिनन्द्य ततो देव प्रयुज्य परमाशुषः स्वधामाणीयौ राजन् प्रतिपूजिताः एवं तौ पार्श्वतौ विष्णौ पुत्रत्वं प्रापितौ दिते हृदि स्थितेन हरिणावैरभावेन तौ हतौ पुनश्च विप्रशापेन राचसौ तौ बभूवतु कुम्भकर्णदसग्रीवौ हतौ तौ रामविक्रमैः सयानौ युधिनिर्भिन्न हृदयौ रामचायकै तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मलि विहाय पुनर्जातौ सुष्पालकरूपरूशजौ हरौ भैरानुबन्धेन पश्यस्तस्ये समीयतुः एनः पूर्वकृतं कृष्ण कृष्णभैरिणः जहुस्त्वन्ते तदात्मानः कीटपे सत्कृतो की यथा यथा यथा भगवतो भक्त्या परमयाभिधां हृपाशैद्यादियसात्म्यं हरे तच्चिन्तया यजुः आख्यातं सर्वमेतत्ते जन्मां त्वं परिपृष्टवान् दमघोषसुतादीनां हरे सात्म्यमपि ऋद्विषाम् एधा ब्रह्मणेऽन्यदेवस्य कृष्णस्य महा च महात्मनः अवतारकथा पुण्यावधो यत्रादिदैत्ययोः प्रह्लादस्यानुचरितं महाभागवतस्य च भक्तिर्ज्ञानं विरक्तिश्च याथात्म्यं चा सर्गस्थित्यप्ययेषस्य गुणकर्मानुवर्णनं परावरेषां सानानां कालेन व्यत्ययो महान् धर्मो भागवतानां च भगवान् येन गम्यते आख्यानेऽस्मिन् समाम्नातमाध्यात्मिकम् अशेषतः य एतत्पुण्यमाख्यानं विष्णो बिरिजोपवेशितं कीर्तये ध्या श्रुत्वा एतद्य आदिपुरुषस्य मृगेन्द्रलीलां दैत्येन्द्रयूथपवं पवधं प्रेतः पठेत च सतां प्रवरस्य पुण्यं श्रुत्वानुभावमकुतोपयमेति लोकं योऽयं दृढोकेवत् भूरिभागालोकं पुनानामुनि यो भियन्ति येषां गृहानावसन्तीति साक्षाद्गूढं परब्रह्ममनुष्यलिङ्गम् सवायं वा अयं ब्रह्म महद्भिमुद्य कैवल्यनिर्वाणसुखानुभूतिः प्रियत्र हृद्वकलुमातुलेय आत्माणीयो विधिकृन् गुरुश्च न यस्य साक्षाद् भव पद्मजातिभिः रूपं धिया वस्तुतियोपवर्णितं मौनेन भक्तोपशमेन पूजित प्रसीदता मे पतिः स ए स सा भगवान् राजन् व्यतनो विहतं यशः पुरारुद्रस्य देवस्य मयेनान्नन्तमायिनां राजवाच कस्मिन्कर्मणि देवस्य मयो मयोहज्जगन्दिशतुः यथां चोपरं चिता कीर्ते कृष्णे नादेन कथ्यताम् नारद्वाच निर्जितासुरादेवै युद्धनेनोपविचितै मायिनां परमाचार्यं मयं सनिर्माया युहुः सनिर्माय पुरस्तिस्रो हयमीरोप्याय तिर्विभुं दुर्लक्ष्यापाय संयोगान्धुवितर्कः परिक्षताः तभिस्ते सुरसेनान्यो लोकान्सिन्ते सेश्वरा नृपं स्मरन्तो नाशयाञ्चक्रोपर्वहिरम् अलक्षिताः ततस्तेशेश्वरा लोका उपासाद्येश्वरं विभो त्राहिनस्तावकान् देवा विनष्टान् त्रिपुरालयैह अथानुगृह्य भगवान् मा भैटे तिसुरान् विभो शरं धनुसुसन्धाय व्यमुञ्चत ततोऽग्निवर्णाशवम् उत्पेतु सूर्यमण्डलात् यथा तये स्पृष्टा वृषवः सर्वे निपेतु स्म पुरौकशः तानालीय महो योगी मय कूपरसेक्षिपत सिद्धामृतरसंस्पृष्टा भद्रसारा महोजसः उत्तस्थुरमेघदलना वैद्यतायु वह्नयः विलोक्य भग्नसङ्कल्पं विमुनस्कं विषध्वजं तदायं भगवान् विष्णुस्तत्रोपायम् अकल्पयत् बस आसीत्तथा ब्रह्मा स्वयं विष्णुरयं हिगौः सविश्य त्रिपुरं काले रसकूपामृतं पपौ ते सुराझपिं पश्यन्तो न शतेदन्विमोहिताः तद्विज्ञाय महायोगी रसपालानिदं जगौ स्वयं विशोकसौकार्तां स्वनन्दैव गतिं च तां देवेसुरो नरून्योगां नेश्वरोऽस्तीह कञ्चन आत्मनोऽन्यस्य बादिष्टं देवेनापोहितुं द्वयोः अथासौ सक्तभिः स्वाभि शम्भो प्राधानिकं व्यधात् धर्मज्ञानविरक्ति तपोविद्याक्रियादिभिः रथं सूतं ध्वजं वाहां धनुर्वर्म सराधियत् सन्नद्धो रथमास्थाय शरं धनुरुपां ददे शरं धनुसन्धाय मुहूर्तेऽभिजितीश्वरः ददाहतेन दुर्भेद्या हूथ त्रिपुरो नृप दिविदुन्दुपयो ने दुर्विमानसङ्कुलाः देवरसि पितृसिद्धेशा ज्ययेति कुसुमोत्करैः अवाकीरञ्च गृहीष्ठान्नश्चाप्सरो गणाः देवं दग्ध्वा पुरस्तिस्रो भगवान् पुरः द्रम्भादिभिः स्तूयमान स्वधाम प्रत्यपद्यत देवं विधान्यस्य हरेशमाया विडम्बमानस्यानि लोकमात्मनः निर्यानुगीतान् सभे जगद्गुरो लोकान् पुण्यानन्यपरं वदामि किम् इति श्रीमद्भागुते महापुराणे पारं चां सीतायां सप्तं स्कन्धे यदिष्टिर्नारसंवादे नाम दशमोऽध्यायः